भूमिर्भूम्नाद्यौर्वरिणान्तरिक्षम् महित्वा उपस्थेते देव्यदितेऽग्निमन्नादमन्नाद्याजादधे आयङ्गौ स्पृश्निरक्रमीदसनन्मातरम् पुनः पितरम् च त्रिगुम्शक्मविराजति वाक्पदङ्गायशिश्रिजे प्रत्यस्य वहद्युभिः अस्य प्राणादपानत्यन्तश्चरति रोचना व्यक्षन्महिषः सुवः यत्पा क्रुद्धः परो सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपजामसि ये मन्युपरोक्तस्य पृथिवीमनुदध्वसे आदित्या विश्वे तद्देवावसवश्च समाभरन् मनो ज्योतिर्जुषतावाज्यम् विच्छिन्नम् यज्ञकम् बृहस्पतिस्तनुता विमन्नो विश्वे देवा इह मादयन्ताम् सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि सप्त होत्राः सप्त धात्वा यजन्ति सप्तजो नीरावृणः स्वाघृतेन पुनरूर्जा निवर्तस्व पुनरग्न इषाजुषा पुनर्नः पाहि विश्वतः स हरय्यानि वर्तस्वाग्नेपिन्वस्वधारजा विश्वप्सृजा विश्वतः परि लेखः स लेखस् सुलेखस्तेन आदित्या आज्यञ्जुषाणा विजन्तु केतस्सकेतस् सुकेतस्तेन आदित्या आज्यञ्जुषाणा विजन्तु विव स्वागुम् अदितिर्देव ज्योतिस्तेन आदित्या आज्यञ्जुषाणा विजन्तो महीम् देवीम् विष्णुपत्नीमजूर्याम् प्रतीचीमे नागुम् हविषा यजाव त्रेधा विष्णुरुगाजो विचक्रमे महीन् दिवम् पृथिवीमन्तरिक्षम् तच्छ्रोणैति श्रव इच्छमान पुण्यगश्लोकयजमानाजगृह्ति शान्तिः